मुद्गलपुराण खंडम एयट धूम्रवर्णचरत अय अखुत्पत्तिवर्णनम श्रीगणेशा नम शौन उवाच विघ्नराजचर दुश्रुद्रदम परम ममना महामदे। धन्योऽसि ज्ञानयुक्तोऽसि व्यासतुल्योऽसि निश्चितं व्यासाधिकोऽधवा किं नु शिष्यस्तस्य महात्मनः श्रुत्वा श्रुत्वा न मे तृप्तिर्जायते तत्कथामृदं माहात्म्यं धूम्रवर्णस्याधुना वदसुखप्रदं सुद उवाच शृणुसौनकमाहात्म्यं धूम्रवर्णस्य सर्वदं यथा व्यासाच्छ्रुदम् पूर्णम् तथा ते कथयाम्यहम् श्रुत्वा विघ्नेश्य माहात्म्यं दक्षो हृष्टमना अभूत् प्रणम्यमुद्गलं सोऽपि पप्रच्छविनयान्विदः दक्ष उवाच विघ्नेशस्य श्रुतं पूर्णं माहात्म्यं सर्वसिद्धिदं न तृप्तोऽहं महायोगिनमृतादधिकं यदः अधुना धूम्रवर्णस्य माहात्म्यं वद विस्तराद कीदृश्यां शमयश्चायं गणेशो धूम्रवर्णकः कीदृशं ब्रह्म तस्यैव केन योगेन लभ्यते कदि तस्यावताराश्च किं कर्म कीदृश्यम् अहः केन संसाधितोदो देवो देहधारी बभूवः कं दैत्यं वशमानीय धर्ममास्थापयत्प्रभुः इत्यादि सर्वमाहात्म्यं वद योगीन्द्रसत्तम ब्रह्माण्डे त्वत्समं नास्ति ब्रह्मदायकपात्रकं सूत उवाच एवं पृष्ठो महायोगी मुद्गलशौनकोऽ ब्रवीद दक्षं हृष्टमनः साक्षात् ज्ञात्वा भक्तियुदं परम् मुद्गल उवाच योगी योगिवन्द्योऽसि निश्चिदम् सर्वभावदः नान्यथा गणनाथस्य कथायाम् जायदेरसः रसः धूम्रवर्णावतारस्य चरितं सर्वसिद्धितं कथयिष्यामि भक्रियादे समासेन प्रजापदे विस्तरेण शिवाद्याश्च वेदाध्यानबभूविरे समर्थास्तत्र कोहं तु स्वल्पज्ञानप्रधारकः अत्रते ते कथयिष्यामि चेदिहासं पुराभवं शेषस्य शङ्करस्यैव संवादेन समन्वितम् प्रणम्यशेषनागश्च ये कदा शङ्करम् पुरा पप्रसिद्धिदम् पूर्णम् सर्वज्ञम् करुणानिधिम् त्वत्तः परतरम् नास्ति वेदश्रुतिप्रमाणदः त्वं ध्यानसं युधस्वामिन् भजसे कम् परम् अधः संशययुक्तोऽहम् पृच्छामि सर्वभावदः किम् मोहार्थं महेशान करोषि चेष्टिदम् नवम् मुद्गल उवाच एवम् पृष्टशिव साक्षात्तमुवाच सुहर्षितः भक्तम् योगप्रियम् दृष्ट्वा साधु चेष्ठा समन्वितम् शिव उवाच एवम् पृष्टोऽहमेकान्ते सनकाद्याैर्महाप्रियैः तत्तेऽहं शृणुवक्ष्यामि ज्ञानम् एकदा सनकाद्याश्च दृष्ट्वा नियमेरदं नियमे यथाशेष तथा संशयसंयुताः सनकाद्या उचुः महेश्वरो भवान् साक्षात् तवेशो नैव विद्यते कं ध्यायसि महादेव मिथ्या मोहप्रदायक तेषां तद्वचनं श्रुत्वा हर्षितोहं च काश्यप ऊचे योगम् गणेशाख्यम् पूर्णशक्तिप्रदायकम् ईशत्वमनीषत्वं च मायायुक्तं नसंशयः संशयः ब्रह्मणि ब्रह्मभूतस्य कथम् तद्वर्तते द्विजाः येने षत्वं च मे दत्तमनीशत्वं तथा परं जनेभ्यस्तं गणाधीशं जज्ञेऽहं भक्तिसंयुधः अहङ्कारयुधा सर्वे न जानन्दि गजाननं तं जित्वाहं मुनीन्द्राश्च सेवेत्तस्य पदद्वयम् शिव से वचन श्रुवा सन का स्तमब्रुवन विस्म भावुक्ता गणेश्ञा सन का ऊचु अभिम महादेव देवेश्वरस्माभिश्चान्ययोगिभिः भी। नरोहं देवरूपोऽहम् आत्माहं स्वस्वरूपकः ब्रह्माहं च महेशान अहं तेषु प्रतिष्ठितः अहं केनैव सदाशिव जिदस्त्वया वद तस्य चरित्रं नो विस्तरेण सुशान्दिदम् श्रीशिव उवाच अहं ब्रह्मणि विप्रेषा तदो ब्रह्मास्मिना सह महावाक्यमये योगे ब्रह्माहं दृश्यते न च नास्ति तथा ब्रह्म नेदि ब्रह्माहमञ्चस ने ब्रह्मा बोधार्थं साधनं चेदं महावाक्यं स्मृतं परं तदः संशयसंयुक्ता सनकाद्यास्तमब्रुवन् न बुद्धं भजनं नाथ त्वदीयं दुर्गमं परं। अधः वदयोगं महेश्वरा दयया शिष्यमुख्यांश्च तारणाय सुशान्दिदम् श्रीशिव उवाच अत्र वः कथयिष्यामि चेदिहा सम्पुरातनम् अहम्भाव विनाशार्थमहङ्कारस्य सौख्यदम् एकदाज्योदिशाम् नाथः सूर्य आत्मा शरी ब्रह्मणा चाभिषिक्त स कर्मण राज्यकर्मी स प्राप्य राज्य मुग्रम तत्कर्मण ज्योतिषा पद अनयुद्यम बभूव देव, दर्मण सृष्टिकर्ता वै ब्रह्म लोकपितामह पालकर्मणा विष्णुर्हरः संहारको भवद कर्मणान्नप्रभावेण पोषिका शक्तिरेव च कर्माधीनं जगत् सर्वं सेश्वरं नात्रसंशयः संशयः कर्ममयो देवः कर्मणां चालकः परः मदधीनमिदम्भाधि भानुरेवं सुगर्विदः अहङ्कारेण संयुक्तश्छिक्कां चक्रे कदा प्रभुः तस्यच्छिक्का समुत्पन्नः पुरुषः सुन्दराकृतिः सपपादमहीपृष्ठे न ज्ञातस्ते भानुना महाकायो विशालाक्षो बलयुक्तो व्यराजद तत्राकस्मात् समायादत् शुक्रसर्वार्थकोविदः पप्रहर्षसंयुक्तस्तं दृष्ट्वा भावसंयुधः शुक्र उवाच कोऽसि कुत्र देवास कर्तुमिच्छसि किं वद माता पिता चदेदा किं मत्त इहेच्छसि पुरुष उवाच सूर्यपुत्रो द्विजश्रेष्ठ तस्य चिक्का समुद्भवः अनाधोऽहं महाभागपदितो धरणीतले त्वं दयायुक्तभावेन मां पृच्छसि न संशयः त्वदधेनो भविष्यामि चाधि मां मुनिसत्तम श्रीशिव उवाच तस्य तद्वचनं श्रुत्वा शुक्रो योगविदाम्बरः ध्यानेनालोक्य तत्कर्म तमुवाच शुभावहम् शुक्र उवाच अहम्भावात् समुत्पन्नस्त्वं सूर्यान्नात्र संशयः अहम् भवस्वाद्य तपः कुरु महामदे एवमुक्त्वा ददौ तस्मै गणेशं षोडशाक्षरं मन्त्रं विधिसमयुक्तं ततः सोऽन्तर्हितोऽभवद अहं तत्र तपस्तेभे ध्यात्वा गणपतिं हृदि निराहारपरो भूत्वा शितोष्णवादवर्षादिसहने दृढनिश्चयः जित्वा कानि प्रयत्नेन तोषयामास विघ्नपम् ॐ तत्सदि श्रीमदान्त्ये पुराणोपनिषद्दि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते अहमुत्पत्ति वर्णन नाम प्रथमोध्याय ओं